पञ्चविंशत्यधिकशततमः सर्गः अयोध्याम् तु समालोक्य चिन्तयामास राघवः प्रियकामः प्रियम् रामस्ततस्त्वरित उवाच धीमाम् प्लवङ्गमम् अयोध्याम् त्वरितो गत्वा शीघ्रम् प्रमगसत्तमा जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे शृङ्गवेरपुरम् प्राप्य गुहम् गहनगोचरम् निषादाधिपतिम् ब्रूहि कुशलम् वचनान् मम श्रुत्वा तु माम् कुशलिनमरोगम् भविष्यति गुहः प्रीतः अयोध्यायाश्च मार्गं मार्गम् प्रवृत्तिम् भरतस्य च निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः भरतस्तुत्वयावाच्यः कुशलम् वचनान् मम सिद्धार्थम् शंसमाम् तस्मै स भार्यम् सह लक्ष्मणम् हरणम् चापि वैदेह्या रावणेन बलीयसा सुग्रीवेण च संवादम् वालिनश्च वधम् रणे मैथिल्यन्वेषणम् चैव यथा चाधिगता त्वया लङ्घयित्वा महातोऽयमापगापतिमव्ययम् उपयानम् समुद्रस्य सागरस्य च दर्शनम् यथा च कारितस्येतु महेन्द्रेण ब्रह्मणा वरुणेन च महादेव पित्रा मम समागमम् सौम्य भरताय निवेदया, उपयात मौम्य भरतायेदय सह राक्षसराजेन हरीणाईश्वरेण चिशगण् राप्य चा यश उपया समर्था सह मित्रहाबल एकुवाय भजते भरतस्त सेदित सैं्चा म ज्ञेयाः सर्वे च वृत्तान् ता भरतस्येङ्गितानि च तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषितेन च सर्वकामसमर्थम् हि हस्त्यश्वरथसङ्कुलम् पितृपैतामहम् राज्यम् कस्य नावर्तयेन्मनः सङ्गत्या भरतः श्रीमान् राज्येनार्थी स्वयम् भवेत् प्रशास्तु वसुधाम् सर्वामखिलाम् रघुणम् तस्य बुद्धिम् च विज्ञायव्यवसायम् च वानरा यावन्न दूरम् याता स्मः क्षिप्रमागन्तुमर्हसि इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः मानुषम् धारयन् रूपमयोऽध्यान् त्वरितो ययौ अथोत्पपातवेगेन हनूमान्मारुतात्मजः गरुत्मानिव वेगेन लङ्घयित्वापि तृपथम् विहगेन्द्रालयम् शुभम् गङ्गायमुनयोर्भीमम् समतीत्य समागमम् शृङ्गवेरपुरम् सवाचाशुभयाहुष्टो हनुमानिदमप्रवीत। सवाचा शुभया हृष्टो हनूमानिदमब्रवीत् पञ्चमीमद्यरजनीमुषित्वा वचनान् मुनेः भरद्वाजाभ्यनुज्ञातम् द्रक्ष्यस्यत्रैव राघवम् एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः उत्पपातमहावेगाद्वेगवान विचारयन् सोऽपश्यद्रामतीर्थम् च नदीम् वालुकिनीम् तथा मरूथीम् गोमतीम् चैव भीमम् शालवनम् तथा प्रजाश्च बहु साहस्री स्फीताञ्जनपदानपि स गत्वा दूरमध्वानम् त्वरितः कपिकुञ्जरः आससाद्रुमान् फुल्लान् नन्दिग्रामसमीपगान् सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् स्त्रीभिः स पुत्रैः पौत्रैश्च रममाणैस्वलङ्कृतैः क्रोशमात्रे त्वयोऽध्यायाश्चीरकृष्णाजिनाम्बरम् ददर्श भरतम् दीनम् कषमाश्रमवासिनम् जटिलम् मलदिग्धाङ्गम् भ्रातृव्यसनकर्षितम् फलमूलाशिनन्दान्तम् तापसम् धर्मचारिणम् समुन्नत जटाभारम् वल्कलाजिनवाससम् नियतम् भावितात्मानम् ब्रह्मर्षि समतेजसम् पादुकेते पुरस्कृत्य प्रशासन्तम् चातुर्वर्ण्यस्य लोकस्य त्रातारम् सर्वतोभयात् उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः बलमुख्यैश्च युक्तैश्च काषायाम् बरधारिभिः न हि ते परिभोक्तुम् व्यवस्यन्ति पौरा वै धर्मवत्सलाः तम् उवाच प्राञ्जलिर्वाक्यम् हनूमान्मारुतात्मजः वसन्तम् दण्डकारण्येयम् त्वम् चीरजटाधरम् मनुशोचसि काकुत्स्थम् सत्त्वाम् कौशलमब्रवीत् प्रियमाख्यामि ते देव शोकम् त्यज सुदारुणम् अस्मिन्मुहूर्ते भ्रात्रात्वं त्वम् रामेण सह सङ्गतः रामः प्रतिलभ्य उपयाति समृद्धा सह मित्रहाबलश महातेजा वैदेह यशस्विनी सीता सामण महेंद्रेण एव मुक्त हनुमता भरत कैकयीसुता कै पाृष्टो हर्षा मोहमुपागम तुहूर्तादुत्थ प्रत्यास च राघव हनुमन्तमुवाचेदम् वाचेदं प्रियवादिनम् अशोकजैः प्रीतिमयैः कपिमालिङ्ग्यसम्भ्रमात् सिषे च भरतश्रीमान् श्रीमान् विपुलैरश्रुबिन्दुभिः देवो वामानुषो वा त्वमनुक्रोशादिहागतः प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् शतम् परम् सकुण्डलाः शुभाचारा भार्याः कन्यास्तु षोडशा हेमवर्णाः सु नासोरू शशि सौम्यानना स्त्रियः सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः विशम्य प्रहर्षितो रामदिदृक्षया भवत् हर्षादिदमब्रवीद्वचः शे श्रीमद्राणे वाल्मीक आदि आदिकाव्ये पंच विंशत सर्ग